अथ पञ्चमः सर्गः दृश्यमूकात्तु हनुमान् गत्वा तम् मलयम् गिरिम् आचचक्षे वीरौ कपिराजाय राघवौ अयम् रामो महाप्राज्ञसम्प्राप्तो दृढविक्रमः लक्ष्मणेन सह भ्रात्रा रामोयं सत्यविक्रमः इक्ष्वाकूणाम् कुले जातो रामो दशरथात्मजः धर्मे निगदितश्चैव पितुर्निर्देशकारकः राजसूयाश्वमेधैश्च वह्निर्येणाभितर्पितः दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः तपसा सत्यवाक्येन वसुधायेन पालिता स्त्रीहेतोस्तस्य पुत्रोऽयम् रामोऽ्यम् समागतः तस्यास्य रावणेन हृता भार्या सत्त्वाम् शरणमागतः भवता सत्यकामौ तौ भ्रातरौ रामलक्ष्मणौ प्रगृह्य चार्चयस्वैतौ पूजनीयतमाबुभौ श्रुत्वा हनूमतो वाक्यम् सुग्रीवो वानराधिपः दर्शनीयतमो भूत्वा प्रीत्योवाच च भवान् धर्मावनीतश्च सुतपाः सर्ववत्सलः आख्यातावायुपुत्रेण तत्त्वतो मे भवद्गुणाः तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो यत्त्वमिच्छसि सौहार्दम् वानरेण मया सह रोचते यदि मे सख्यम् बाहुरेष प्रसारितः गृह्यताम् पाणिना पाणिर्मर्यादाबध्यताम् ध्रुव एतत्त्वपचरम् श्रुत्वा सुग्रीवस्य सुभाषितम् सम्प्रहृष्टमना हस्तम् पीडयामास पाणिना हृष्टः सौहृदमालम्ब्य पर्यश्वजडपीडितम् ततो हनूमान् सन्त्यज्य भिक्षुरूपमरिन्दमः काष्ठयो स्वेन रूपेण जनयामास पावकम् दीप्यमानम् ततो वह्निम् पुष्पैरभ्यर्थ्य सत्कृतम् ततोऽग्निम् दीप्यमानन्तौ चक्रतुश्च प्रदक्षिणम् सुग्रीवो राघवश्चैव वयस्य त्वमुपागतौ ततः सुप्रीतमनसौ ताबुभौ हरिराघवौ अन्योन्यमभि वीक्षन्तौ न तृप्तिमभि जग्मतुः त्वम् वयस्योऽसि हृद्यो सुग्रीवो राघवम् वाक्यमित्युवाच प्रहृष्टवत् ततः सुपर्णबहुलाम् भङ्क्त्वा शाखाम् सुपुष्पिताम् सालस्यास्तीर्य सुग्रीवो निषसा दस राघवः हनुमान् मारुतात्मजः शाखाम् चन्दनवृक्षस्य ददौ परमपुष्पिताम् ततः प्रहृष्टः सुग्रीवश्लक्ष्मम् मधुरया गिरा प्रत्युवाच तदा अहम् विनिकृतो रामचरामीह भयार्दितः हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः सोऽहम् त्रस्तो वने भीतोऽवसाम्युद्भ्राम् चेतनः वालिना निकृतो भ्रात्रा कृतवैरश्चराघवा वालिनो मे महाभागभयात् तस्या भयम् कुरु कर्तुमर्हसि काकुत्स्थभयम् मेन भवेद्यथा एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्म, धर्म वत्सलः प्रत्यभाषत काकुत्स्थः सुग्रीवम् प्रहसन्निवा उपकारफलम् मित्रं विदितम् मे महाकपे वालिनम् तम् वधिष्यामि तव भार्यापहारिणम् अमोघाः सूर्यसङ्काशा ममे मे निशिताः शराः तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः कङ्कपत्र प्रतिच्छन्ना महेन्द्राशनि सन्निभाः तीक्ष्णाग्रारुजुपर्वाणः सरोषा भुजगा इव तमद्यवालिनम् पश्यतीक्ष्णैराशीविशोपमैः भूमौ प्रकीर्णमिव पर्वतम् स तु तद्वचनम् श्रुत्वा राघवस्यात्मनो हितम् सुग्रीवः फ्पराम तव प्रसादेन नृसिंहवीर प्रियाम् च राज्यम् तथा कुरु त्वम् नरदेव वैरिणम् यथा न हिं स्यात् स सीता कपीन् रक्षणदाचराणाम् राजीव हेमज्ज्वलनोपमानि सुग्रीव राम वामानि नेत्राणि समम् स्फुरन्ति शे श्रीमद्राणे वाल्मीकए आदि काव्ये किंडे पंचम सर्ग